सृष्टप्राणो भृशतरम् तेन चेत्सङ्गमो मम किमन्यद्दुःखमधिकम् परमम् भुवि कौरवाः धृष्टद्युम्नो द्रोणमृत्युरिति विप्रथितौ वचः मद्वधाय श्रुतोऽप्येष लोके चाप्यति चाप्यतिविश्रुतः सोऽयन् प्राप्तस्त्वत्कृते काल उत्तमः त्वरितं कुरुत श्रेयो नैतदेतावता कृतम् मुहूर्तम् सुखमेवैतत्तालच्छायेव हैमनी यजध्वञ्चमहायज्ञैर्भोगानश्नीतदत्त च इतश्चतुर्दशे वर्षे महत्प्राप्यस्यथ वैशसम् त्रोणस्य वचनम् श्रुत्वा धृतराष्ट्रो ब्रवीदितम् सम्यगाः गुरुक्षत्ररुपावर्तय पाण्डवान् यदि तेन सशस्त्ररथपादाता भोगवन्तश्च इती श्री महा भारते सभा श्रीमहाभारभापर्वि अूतपर्वणि विदुरधृतराष्ट्रद्रोणवाक्ये अशीतितमोध्याय